मार्कण्डेयपुराणम् अध्यायं हण्ड्रड् अण्ड् ट्वेण्टि नैन् नरिष्यन्तचरितवर्णनं क्रौष्टुकिरुवाच मरुक्तचरितं कृत्स्नं भगवन्कथितं त्वया तत्सन्ततिमशेषेण श्रोतुमिच्छा प्रवर्तते तत्सन्तौ क्षिदीशा ये राज वीशान तान हम श्रोदाया ख्यान्महाकंडेय उच ना मरु तैभवत्सु अष्टण सज्येष्रेष्ठ वर्षाणां च सहस्राणि सप्ततिं दश पञ्च च बुभुजैपृथिवीं कृष्णां मरुत्तः क्षत्रियर्षभः कृत्वा राज्यं स्वधर्मेण इष्ट्वा यज्ञाननुत्तमान् सुदं ज्येष्ठमभिषिच्य ययौवनम् केकाग्रचित्तः स तत्र तपो महत् दिवं विप्र यशसा वृत्यरोदसी नरिष्यन्तः सुदस्सोऽस्य चिन्तयामास बुद्धिमान् भूभृताम् अत्र वंशे महात्मानो राजानो मम पूर्वजाः यज्विनो धर्मदः पृथ्वीं पालयामासुरूर्जिताः दातारश्चापि वित्तानां सङ्ग्रामेष्वनिवर्तिनः तेषां कश्चरितं शक्तस्त्वनुयादुं महात्मनाम् किन्तु तैर्यत्कृतं कर्म धर्म्यमाहवनादिभिः तदहं कर्तुमिच्छामि तच्च नास्ति तच्चनास्ति किम् धर्मात् पालयधः पृथ्वीं को गणोत्र महीपतेः असम्यक् पालनात्पापी नरेन्द्रो नरकं व्रजेद स दि वित्ते महायज्ञा कर्तव्या एव भूभृता दातव्यञ्चात्र किं चित्रं सीददामीश्वरो गतिः तथा लज्जा कोपश्चारिजनाश्रयः कारयन्ति स्वधर्मश्च सङ्ग्रामादपलायनम् ये व्यथा तत्सम्य मतपूर्वपुष पिता च मे मृत्तेन तथा तत् पूर्वजै किजत ये यज्विनो यज्वि वराद्रमाच्च निवर्तिन महत्सङ्ग्रामसम्मर्देष्वविसंवादिपौरुषाः क्रमेणाहं यदिष्यामि कस्मै तानभिसन्दितुम् अथवा तैस्वयं यज्ञाकृधाः पूर्वजनेश्वरैः अविश्रमद्भिर्नाान्यैस्तु कारितास्तत्करोम्यहम् मार्कण्डेय उवाच इति सञ्चिन्त्य यत्नं स चकारैकं नरेश्वरः यादृशं न चकारान्यो वित्तोत्सर्गोपशोभितं द्विजानां जीवनायालं दत्वा दुसुमहाधनं तदशतगुणं तेषां यत्नार्थमददान्नपः गावो वस्त्राण्यलङ्कारं धान्यागाराधिकं तथा प्रत्येकमददात्तेषां सर्वपृथ्वीनिवासिनां तदस्तेन यदा यज्ञः प्रारब्धो बुभुजा पुनः प्रारब्धे समखे यष्टुं तदो नालपदद्विजान् यान्यान्वृणोति सनृपो विप्राणास्त्विज्यकर्मणि ते तेते तमोचुर्यज्ञाय वयमप्यत्र दीक्षिताः अन्यं वरय त्वयास्माकं विसर्जितं तस्यान्दो नास्ति यज्ञेषु दद्यास्त्वं नृपते कथम् मार्कण्डेय उवाच न जो विप्रांस्तदा शेषक्षितीश्वरः बहिर्वेद्यां तदा दानं स धातुमुपचक्रमे तथापि जगृहुर्नैव धनसम्पूर्णमन्दिराः द्विजा य धादुं भूयोऽसौ निर्विण्ण इदमब्रवीद अहोदिशोभनं पृथ्व्याहं यद्विप्रो नाधनक्वचिद् अशोभनं च यत्कोशो विफलोऽयमयज्विनः नार्त्विज्यं कुरुदे कश्चिद्यजमानो किलो जनः द्विजानां न च नो दानं दददां दा दा दा सम्प्रतीच्छदे मार्कण्डेय उवाच तद काजावक्रिया प्रणिपत पुनःपुनः स्वयजक्रे ते प्रचक्रोर्माखुत चासी तर महीपते सयज्ञू तदा पृथ्विया यजमानो किलो द्विजन्मनामभून्नासि सदस्यस्तत्र कश्चन यजमानाद्विजा केजित् के तु याजकाः नरिष्यन्तो नरपदिर्याजस तदा तत्प्रदादुर्धनैर्यागं कुर्यु पृथ्व्यामशेषतः प्राच्यां कोट्यस्तु यज्ञानामासन्नष्टादशाधिकाः प्रतीच्यां सप्तवैकोट्यो दक्षिणस्यां चतुर्दश उत्तरस्यां च पञ्चाशदेककालं तदाभवन् मुने ब्राह्मणयज्ञानां नरिष्यन्तो यदा यजद एवं स धर्मात्मा नरिष्यन्दो भवत्पुरा मरुत्ततनयो विप्र विख्यातबलपौरुषः इति श्रीमार्कण्डेयपुराणे नरिष्यन्तचरितं नामैकोनत्रिंशदधिकशततमोऽध्यायः ओ